गणेशपुराणम् उपासनाखण्डम् अध्यायं 25 विश्वामित्र उवाच शृणुराजन्महाश्चर्यं दैवकालकृतं शुभं कौण्डिन्ये नगरे राजा चन्द्रसेनो महामतिः स्वकर्मपरिपाकेन निधनं कालयोगतः अगमद्दिव्ययानेन धर्मबाहुल्यदो दिवम् तच्च नागरिका श्रुत्वा हाहाकारं प्रचक्रिरे धावमाना ययुस्तत्र त्यक्त्वा कार्याण्यनेकशः शिरांसिज विनिघ्नन्तः पाणिभिः शोकर्षिताः शस्खलुश्च पदन्तश्च ददृशुःप्रदभूपतिम् नेमुः पादौ प्रगृह्यैव दुःखमोहवशं गताः केचिद्धस्तं गृहीत्वैव स्वस्वमूर्ध्निन्यवेदयन् रुरुदुसुस्वरं केचित्पाणिपृष्टमुखस्वनाः मृता इवेतु स्नेहातिशयो परे तर पत्नी दुसुदुणस्वरा पाणीभ्यादृशदुखिता मागदा पति भुवि समानव्यसनाभिः सह पुरस्त्रीभिर्धृता तदा विललापतदा कान्ताचन्द्रसेनस्य सुन्दरी निर्लज्जा निरनुक्रोशा नाधनाधेदिजल्पती रे धादर्न दयातेऽस्ति बालवच्चरितं तव युनक्षिः स्नेहभावेन विनियुङ्क्ष्य कृदार्थकं राजन् पृष्ट्वा क्व गतो वद करुणानिधे दिने दिने वदस्येव यामि भद्रासनं प्रिये अद्य निष्ठुरदां केन गमितोऽस्यागसा मम तत्क्षमस्व न माम्येषा जनमध्ये गदत्रपा पा न य मां यत्र यातोऽसि प्रियां ते प्रियकारिणीं त्रिलोकीं पश्यतीं शून्यामपुत्रां पतिता विना मुनिरुवाच सुमन्धु प्रकृतिस्तस्य मनोरञ्जन एव च ताकिम् ता किम् राजस्य भविष्यति आवाभ्या विचार्यैव क्वगतो नृपसत्तम कस्मान्न वदसे राजन् किमर्थम् मौनमास्थिदः न पश्यसि प्रियां भार्यामनाथामिव विह्वलां सहैव यावो नृपदेत्यक्वा सर्वं गृहाश्रमम् अनाथं नगरं तेद्य राष्ट्रं वा कोधपास्यति मुनिरुवाच एतस्मिन्नन्तरे तत्र बभाणब्राह्मणसुधीः वेदशास्त्रार्थतत्त्वज्ञः प्रस्तुतं निष्टुरं वचः सर्वे स्वार्थपरा यूयं नार्थः विद्यते सुहृदां रोदनाश्रूणि मुखे प्रेदस्य भारदाम् यादि व्याधिप्राणहीनं कलेवरं ब्रह्माण्डगोलके कोनुमृतमन्योऽनुगच्छति इयं च सुलभराज्ञी रोदते जीविताशया यस्या मनोनुगत्यर्थं न स रोदिति कर्हि युयं सर्वे नागरिकाः स्वकार्यगमनाकुलाः सूर्यवंश्या स्वमवंश्या ये राजानो मृतानकिम् न किं तस्मादुद्धाय सर्वेपि राज्ञ कुर्वन्तु मृदसंस्कारकारीय स एवाप्तो न चापरः एतदर्थं हि लोकस्य ध्यायसि धर्मपुत्रो वाप्यन्य एव च मुनिवाच तदस्ते नागरा सर्वे द्वाव स्त्रिय प्रबोधिता ब्राह्मणे चक्रुस्तौर्धद सुमंतुना सर्व सर्वत्त स्लांजलि पुनस्नात्वा तु ते सर्वे नगरं विविशुश्चिराद अश्नन्ति पिजुमन्तस्य पत्रं न त्वेश्वरं जनाः सान्त्वयित्वादु सुलभां ययुस्वं स्वं राज्ञै दत्वाम् वराणिते चक्रुस्ते भोजनं प्रीत्या प्रत्यहं बहुवासरं एकदा नागरा सर्वे द्वावमाद्यौ नृपप्रिया सर्वे संशयिता आसन् प्रजापालनकर्मणि यदस्मिन्नन्तरे तत्र मुद्गलो मुनिराययौ उवाच सर्वाशय सर्वाशयविधस्य राज्ञो महागजः गहनो नाम गृह्णादु मालां पुष्करनिर्मितां समाजे यस्य कंठेतां। निक्षिपेत् स नृपो भवेद् तथेति च तदा सर्वे साधु साध्वित्यपूजयन् अतीन्द्रियज्ञानवधो वचो मुद्गलशर्मणः इति श्रीगणेशपुराणे उपासनाखण्डे पञ्चविंशोऽध्यायः ओ